वदतु सरस्वती नमस्तुभ्यं वरदे कामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा नमो नमः धन्यवादः धन्यवादो अद्य दिनस्य वर्गे वयं पुनरावर्तनं कुर्मः कस्य पुनरावर्तनम् एकवचनान्तानि बहुवचनान्तानि क्रियापदानि तत् कथं केवलं पठनं करणीयं तत् मास्तु वयं परिवर्तनं कुर्मः अनन्तरं सर्वनाम उपयोजित्वा लघु लघुवाक्यानि तेषां रचनां कुर्मः इति भिन्नप्रकारेण पुनरावर्तनं कुर्मः अनन्तरं कथापि अस्ति अद्यदिने उत्तमपुरुषः मध्यमपुरुषः तस्य विषये अपि वयं पठनं कुर्मः एतादृशं प्रथमः तु एकनिष नमस्कारः नमो नमः तन्नतया अनिता भगिनी भारत् महोदय रमणी भगिनी अद्य अस्ति आम् वा नमो नमः अहं वाक्यानि वदामि अनन्तरं भवन्तः सर्वे तस्य परिवर्तनं कुरु इत्युक्ते उदाहरणार्थं यदि अहं वदामि सः सः भवति भवति इति सः इति एकवचनान्तं भवति इति अपि एकवचनान्तं तस्य परिवर्तनं कथं भवति सः बहुवचनानि ते, ते, ते भवन्ति some time so that when arunam comes we will have that revision session for some time and then we shall proceed further okay so okay let us start let us start with anita bagini anita bagini namo namaha namo namo om badami uh mm huh -hmm. ani bhavanti ani bhavan bhavanti प्राणिधानि-धावन्ति, धावत् धावति सम्यक् बहु सम्यक् एषः खादति एषाः खादन्ति एषः खादति एषः इते खादन्ति एते खादति सम्यक् अनन्तरं भारतमहोदय भारतमहोदय श्रूयते वा भारतमहोदय अस्ति वा अस्तु जयन्ति भगिनी आं बेनि वदामि वदतु मम ध्वनिः सम्यक् अस्ति वा न वा आं बेनि सम्यक् अस्ति अस्तु अस्तु जयन्ती भगिनी ते नमन्ति ते नमन्ति सः नमति सम्यक् एषा एषा कर्षति एषा करिष्यति एषा कर्ष्यति ये एताः करिष्यन्ति कर्षन्ति करिष्यन्ति कर्ष इत्युक्ते किं कृषकर्ष कर्षणं कर्शनम, कर्षणम् इत्युक्ते किं फार्मिङ्ग् ओके सम्यक् हा अनन्तरं रमीभगिनी रामीभगिनी सज्जवः सः गर्जति ते गर्जन्ति बहु सम्यक् अनन्तरं तत् हसति तानि हसन्ति सम्यक् अग्रिमे राधा भगिनी राधा भगिनी एताः रक्षन्ति सम्यक् ते क्षिपन्ति सः क्षिपति सम्यक् अग्रिमे राघोमहोदय राघवमहोदय सज्जा इदानीं okay. okay. के पृच्छन्ति के पृच्छन्ति बहु सम्यक् इदानीं सा पिबति साबन्ति बहु सम्यक् अग्रिमे शैलेन्द्रमहोदय नमस्ते एते भ्रमन्ति एते भ्रमन्ति एषः भ्रमति बहु सम्यक् सा पचति सा पचति सा पच पतन्ति सा पचति सा पचति सा इति स्त्रीलिङ्गी सा पचति एका महिला पचति तिस्रः महिलाः सन्ति कथं भवति सा ताः ताः पचन्ति एकवारं पुनः वदति वा ताः सा पचति ताः पचन्ति बहु सम्यक् सम्यक् अनन्तरम् अनन्तरं श्रीवत्समहोदय श्रीवत्सामः नमस्ते, नमस्ते। एषा चरति एताः चरन्ति बहु सम्यक् अनन्तरं का पश्यति का पश्यति काः पश्यन्ति बहु सम्यक् अनन्तरम् महोदय वा त्रिविक्रमहोदय त्रिविक्रमहोदय विकसन्ति पुनः एकवारं कानि बहु सम्यक् कानि विकसन्ति बहु सम्यक् ओके सः स्नाति सः स्नाति हा सः स्नाति ते स्नान्ति इति ओके धन्यवादवीणा भगिनी वीणा भगिनी हाँ भगि तत्मती स्मरती बहु सम्यर्चं एषा अर्चति एषः अर्चति एषः एशह... ओके okay. एते अर्चन्ति पुल्लिङ्गी बहुवचनान्तम् एते पृच्छन्ति अर्चनं करणीयम् इत्युक्ते पूजा अर्चा एवं एते अर्चन्ति ओके सो एते विल्दिकम् एषः एषः अर्चति ओके सर्वेषाम् अवगमनं सम्यक् रीत्या अस्ति इति ओके नौ वी हाव् आल् स्टडीड् आल्दीस् बहुवचनान्तानि क्रियापदानि एकवचनान्तानि क्रियापदानि वट् इस् दूस् आफ़् देट् अप्लिकेशन् वि आल्वेस् गो फार् एप्लिकेशन् सो फार् देट् हियर् इस् वन् सुभाषितं फोर् यू एण्ड् देन् रमणी भगिनी पठति शेर् करो एकनिमिषि पर्पस् आस् नाशन् इन् दीवन् सुभाषितम् दृश्यते पठत् पठतु रमणी भगिनी यह पठति लिखति पश्यति परिपृच्छति पण्डितान् उपाश्रयति तस्य दिवा दिवाकरकिरणैः नलिनीदलं वा विस्तारिता बुद्धिः mm. यह यः यः इत्युक्ते हो लिङ्गवचनविषये वदतु यह ंगलिंग एक लिखती सर्वे, प्रथमे पश्यंडिता उपाश्रयती अश्य प्रथम वाक्यर्तुपदी सब्जेक्ट पठति लिखति पश्यति परिपृच्छति उपाश्रयति एतानि सर्वाणि क्रियापदानि सन्ति ओके okay. यः पठति यः लिखति यः पश्यति यः परिपृच्छति यः पण्डितान् उपाश्रयति इदानीं रमीभगिनी बहुवचने बहुवचनान्तपदं यः शब्दस्य किमस्ति इदानीं बहुवचनान्तपदानि उपयोजित्वा वाक्यरचना करोतु ये, ये पठन्ति लिखन्ति पश्यन्ति परिपृच्छन्ति पण्डितान् उपासरयन्ति बहु सम्यक् इत्युक्ते हा एकनिमिषम् इत्युक्ते यः पठति ऐ I मीन् mean, द पर्सन् हू रिस् लिखति रायट् पश्यति सीज् अनन्तरं परिपृच्छति परिपृच्छति वट् इस् परिपृच्छति भगिनी एनि ऐडिया कः वदति न श्रो न श्रुतवती अहं कः वक्तुम् इच्छति वा अस्तु परि इति उपसर्ग अगैन् द अगैन् द क्वश्चन् लखिलेनि परिपृच्छति पुनर् ऐ मीन् आपोसिट् पर्सन् एस् आस् किं सन्ति इत्युक्ते तत्र तत्र चर्चा चर्चा वर्तते परिपृच्छति सो डिफ्रेण्ट् टैप् आफ़् क्वश्चन्स् परि इति उपसर्गिनियर् टैप् मोनोटोनस् क्वशन् डिफ़्रेण्ट् आस्पेक्ट्स् आर् कवर्ड् in in church yeah. a particular oh. yeah. upashrayati. Upashrayati पण्डितान् उपाश्रयति इत्युक्ते दु लीवस् इन् दम्पनी आफ् लर्निड् पीपल्प अगेन् उप इति उपसर्ग आश्रयति सो द वन् हु प्रिफर्स् टु बि इन् द कम्पनी आफ् लर्निड् पीपल् यः पठति लिखति pasyati, paripruchati, पण्डितान् upashrayati. तस्य दिवा दिवाकरकिरणैः नळिनी दलम् इव विस्तारिता बुद्धिः अत्र बहुवने बहुवचनं कर्तुं अस्त अर्थ अर्थ से स्पष्टीकरण वर्थमता कूम तस्ते यिखति पश्य पिपृती पंडिता उपाश्रयती बुद्धि बुद्धि इंटेलेक्ट बुद्धि सर्वे जानती खलु बुद्धि कि बुद्धि विस्तरता विस्तारिता तस्य बुद्धेः विस्तारिता इति बुद्धेः विषये किं दत्तमस्ति विस्तारिता बुद्धिः तत्र एक्स्पान्शन् इति अस्ति रेट् सो द पर्सन् हू इस् डूयिङ्ग् आल् दिस् थिङ्ग् हिस् इण्टेलेक्ट् एक्स्पाण्ड् लैक् दिवाकरकिरणैः नलिनीदलम् इव दिवाकरकिरणैः इदानीं Uh, रमणी भगिनी धन्यवादः अग्रिमे राधा भगिनी धन्यवादः राधा भगिनी भवती इत्युक्ते किं जानाति वा इव इत्युक्ते लैक् लैक्ैक्ट् सो देट् एक्स्पान्शन् आफ़् बुद्धि कम्पेर्ड् वित् वट् इस् देट् सन् correct so nalini tyupte a a flower which flower particularly no, no, i don't know that yeah. uh th that is seen in the picture what is that lotus flower okay lotus okay. flower okay. okay now here all of you please try to understand there are so many other words in sanskritam for lotus flower mm -hmm. anybody knows kamal samala samalam sangajam kamal करेक्ट्जं करेक्ट् इतोपि पुण्डरीक इतोपि राजीव बहु सम्यक् इतोपि पद्यं सरोज सरोज सरोज बहु सम्यक् इतोपि पद्मं पद्मम् the mau itopi see the list is really unending utpalah arvindah pushkarah chatadal chatapatra sahasrapatra triniketah ravindah lakshmi grohah jalakarandakah sarasijah so there are so many words special importance given for कमल फ्लावर् कमल पुष्पम् राट् नकर किरणैः देट् इस् बाय् दिवाकर इत्युक्ते राधा भगिनी एनि अर्थ ने पोत्सान् संस्कृत आदित्य करेक्ट् Sammayap, Sammayap, correct. So, Divakara Kiranahi Nalini Dalam Ifo Vistarita Buddi His intellect expands and that is compared with as the lotus petals expands due to the rays of sun. Okay. So, this is the use of learning all this. Sometimes we feel those who have already uh, learnt all this for so many times ek vachanant padam bahuvachanant padam sometimes you feel what is the use of learning the same thing again and again but if we have a practice and if we keep learning what will happen that is expressed in this subhashita agresaremo manantar chikana kashtam yes so vaddati na shrutavati प्रश्न अस्त ओके चे अग्रि इधनी तट लिने वयम अयन कू अग्रिमे सप्ताह लोट लर्तमन कालेट लट्ले विशेष क्रियापदा स भवति भवन्ति लिखति लिन्ति नमति नमन्ति यच्छति यच्छन्ति तत्तु भवति एव परन्तु अत्र दृश्यमस्ति क्रूधातु यदि क्रूधातुः प्रथमपुरुष एकवचनान्तरूपं करोति इति अस्ति तस्य प्रथमपुरुष बहुवचनान्तं करोन्ति इति नास्ति कुर्वन्ति इति अस्ति एतानि सर्वाणि विशेषक्रियापदानि तस्य एकवारं पठनं वयं कुर्मः जयन्तीभगिनी स्क्रीन् दृश्यते वा आम दृश्यते बेणी काति वा कृपया आम् वर्तमानकाले लट् लकारे विशेषक्रियापदानि क्र क्रमः दातुः क्रोधातु प्रथमपुरुष एकवचनं करोति प्रथमपुरुष बहुवचनं कुर्वन्ति क्रीदातु प्रथमपुरुषे एकवचनं क्रीणाति प्रथमपुरुष बहुवचनं क्रीणान् क्रीणन्ति क्री क्री इत्युक्ते किं टु बै संथिङ्ग् अग्रिमे गृह दातु गृणाति गृणन्ति तत्र गृ एकनिमिषं वा सर्वेषां कृते एव वदामि गृह्णाति एवमस्ति गृह् अग्रिमे शक्दातु प्रथमपुरुष एकवचनं शक्नोति प्रथमपुरुष बहुवचनं शक्नुवन्ति hmm. शृद्धातु hmm. प्रथमपुरुष एकवचनं शृणोति बहुवचनं शृण्वन्ति hmm. चिदातु चिनोति प्रथमपुरुष एकवचनं बहुवचनरूपाणि चि चिन्वन्ति प्र इति उपसर्गम् आपदि अपि उपसर्ग आपदि दातु प्राप्नोति इति प्रथमपुरुष एकवचनं प्राप्नुवन्ति इति बहुवचनं रुद् इति धातु रोदिति इति प्रथमपुरुष एकवचनं रुद्व रुदन्ति इति प्रथमपुरुषबहुवचनम् दा mm -hmm. दातु ददाति इति प्रथमपुरुष एकवचनं ददति इति प्रथमपुरुष बहुवचनं हु दातु इति प्रथमपुरुष एकवचनं जुह्वति इति बहुवचनं बहु सो दीस् फार्टु म्बर् मेनिबि मेक् सेण्टेन्स् न अत्र रुद हृद इत्युक्ते किं भगिनी जयन्ति भगिनि क्रै क्रै टु क्रै बेवि क्रैट् तो uh, to, to pick or, uh, to तू ची पिक चूज टू ी धातो समथिङ्ग् आर् आस् सम् टु कलेक्ट् करेक्ट् हू हू धातु विषये नम्बर् टेन् हूहो हू हू इति कल तथा समदातु a puja yam havana madhya sacrifise a and puranaguti puranagati yam correct havi havi abhi so this dhatu is very famous in bhagavad gita right jo hoti jo hum mai padhiye dhanyawad ah tri vikram mahoday astiva tri vikram mahoday ओके अस्ति वा ओके शैलेन्द्रमहोदय अस्ति वा अस्तु भगिनि तत् इलेवेन् एण्ड् ट्वेल्व् कृपया पठतु बन्दति बध्नन्ति एकवचनान्तरूपं बध्नाति बहुवचनान्तम् एवं अनन्तरं नम्बर् ट्वेल ज्ञा ना, ज्ञा ना, ज्ञानाति ज्ञानाति ज्ञानन्ति पुनः एकवारं पठति वा धातु अपि वदतु एक नेल् नम्बर् ट्वेल्व् पुनः एकवारं ज्ञानाति जानन्ति तत्र ज्ञा इति जानाति जानन्ति तत्र ज्ञा एतस्य जा इति भवति जानाति जानन्ति एवं ओके इदानीं भवान् शैलेन्द्रम्यक् भवान् शैलेन्द्रमहोदयः भवानेव जानाति जानन्ति उपयुज्य वाक्यरचनां करोति वाक्यं करोतु निश्चयम् अहं जानाति तत्र अहम् इति नास्ति अत्र जानाति इति प्रथमपुरुषे रूपमस्ति प्रथमपुरुष एकवचनान्तं जानाति थर्ड् पर्सन् इति इत्युक्ते प्रथमपुरुष सः जानाति बहु सम्यक् अनन्तरं बहु सम्यक् ते जानन्ति सः जानाति बालकः जानाति बालिका जानाति गणेशः जानाति बालकाः जानन्ति लैक् like देट् ओके okay. तथैव बन्धधातोः उपयुज्य वाक्यरचना करोति वानिङ्ग् बन्ध uh, meaning... इत्युक्ते ताय् ताय् ताय् या या बालकः बालक बालकः बालक, बालके बध्नाति सम्यक् सो एवीबडी हेज़् अण्डर्स्टुड् यूज़् आफ़् सिङ्ग्युलरम् Whenever any Kriya Padam वेन्व एनी क्रियापदम् और् ए धातु एस्पेशली देट फस्ट कालम् हृद even here, Kru, ज्ञा इव हियर Shru, Chi, Pra, Upasarga, ची Aap, these are all Dhatu. These are basic roots by using which we are forming Kriya Padani. Now, we have understood the use of singular ी आव् अण्डर्स्टुड् द यूस् आफ़् सिङ्गुलर् फ़ार्म् प्लुरल् फार्म् टुडे विल् बि लर्निङ्ग् फार् उत्तमपुरुष तथैव मध्यमपुरुष अण्ड् नाट् वी हो टु डु वट् वुड् बि द नेक्स्ट् डे विेक् ट्रै टु मेक् लिटिल् बिट् एड्वान्स् विल् गो एड्वान्स् लेल् अण्ड् मेक् द सेण्टेन्स् इत्युक्ते तत्र फार् एक्साम्पल् अत्र बध्नाति इति अस्ति So, we can imagine गोपालकः धेनुं बध्नाति गोपालकः ओके यः गो गोपालकः गो गो पालनं करोति गोपालकः वा गोपालः धेनुं बध्नाति एवं सो छात्रा छात्रः संस्कृतं जानाति छात्राः संस्कृतं जानन्ति सो We वि विल् जस्ट् कीप् देट् इस् मेकिङ्ग् डिफ्रेण्ट् टैप् आफ़् सेण्टेन्सेस् तत्र अपि जुहोति इति अस्ति Rushi ऋषि यज्ञे जुहोति Dadati Raja याच याचकाय दानं ददाति धनिकः धनं dadati. Like that. Okay? Balakah Balakah मातुः स्मरणं कृत्वा रोदिति जस्ट् ट्रै टु मेक् लिटल् अट् अड्वान्स् लेवेल् वी हव् टु कीप् ट्रै फैन् धन्यवादः शैलेन्द्रमहोदयः सम्यक् अस्ति महोदय धन्यवादः धन्यवादः धन्यवादः ओके लेट् गो फार् उत्तमपुरुषः एतत् डी टेल् मी नोटिस् दिस् उत्तमपुरुषः पर्सन् एनी अद आन् अस्मत् शब्दस्य रूपाणि सन्ति तत्र सम्यक् बट् वाय डो वी काल् उत्तमपुरुषः वाय् वाय नोट् प्रथमपुरुषः त्रयाणां पुरुषाणाम् उत्तमः वा अहम् एव किल भगिनी अस्मत् शब्द अहम् उत्तमः अस्माकं विषये वदन्ति किल अतः उत्तमः पुरुषः अस्माकम् इति सर्वेषां कृते अस्माकमिति तु उत्तमः कथम् अहं तु उत्तमः न अस्मि भगिनि अत्र शास्त्रस्य विषये वक्तुम् इच्छामि वेरि नैस्लि इट् हेज़् बीन् थाट् बै अवर् लर्नेड् संस्कृततज्ञाः ये जनाः hmm. सन्ति तेषां चिन्तनम् अहं वक्तुम् इच्छामि अत्र किमस्ति भगिनी सर्वेषां कृते वदामि प्रथमः पुरुषः प्रथमः पुरुषः सः प्रथमः अस्ति सः प्रथमः अस्ति सा प्रथमः पुरुषः ष ताः एण्ड् आल् दे आर् आल् प्रथमः पुरुषः सो इ अदर्स् एस् प्रथमपुरुषः इस्पेक्ट् टु अदर्स् एज़् यु आर् प्रथमः देन् ऐ बिकम् उत्तमः हव यु अण्डर्स्टुड् द कान्सेप्ट् एस् इङ्ग् रिस्पेक्ट् टु अदर्स् इ At mm. the the the first position, then naturally I become puttama. Okay? Because ah. because see see mm. thought behind everything. Right now because, see, when we in the school, बहु सम्यक् ोट् बिहाण्ड् नाो वी लर्ड् इन् first person, second person, third person like that. But in mm. Sanskrit, it is in a different mm. way. यू आर् प्रथम एण्ड् देन् वेन् एन् से यू आर् प्रथम नेचुरलि ऐ विकम् उत्तम सो फार् एवर् रिमेम्बर् उत्तमः पुरुषः तत् अहम् उत्तमपुरुषः सर्वे जानन्ति तत् अहमिति उत्तमपुरुषः अस्ति चेत् तस्य बहुवचनान्तरूपमपि सर्वे जानन्ति खलु किमस्ति वयं वयम् ओके नौ लेट् सी द चार्ट् अहं विषये अद्य वयं पठनं कुर्मः अनन्तरम् मध्यमपुरुषस्य श्रीवत्समहोदय भवान् पठति वा आं भगिनि उत्तमपुरुषः अहम् अस्मि बहुवचनं वयं स्मः अहम् अस्मि वयं स्मः अनन्तरम् उत्तमपुरुष एकवचनम् अहं पठामि उत्तमपुरुषः बहुवचनं वयं पठामः उत्तमपुरुष एकवचनम् अहं लिखामि उत्तमपुरुषः बहुवचनं वयं लिखामः सम्यक् सुमहोदय अत्र अस्मि एकवचनान्तं स्मः बहुवचनान्तम् पठामि एकवचनान्तम् पठामः बहुवचनान्तम् एव लिखामि लिखामः यदि अहमस्ति चेत् अस्मि पठामि लिखामि इति भवति वयं बहुवचने अस्ति चेत् स्मः पठामः लिखामः एव भवति इदानीं तत्र महोदय भवान् वाक्यरचनां करोतु कथं तत्र अहमस्मि इति अस्ति कर्मपदं तत्र कर्मपदस्य योजनां करोतु अहं पठामि इति अपि अस्ति कर्मपदम् उपयुज्य वाक्यरचना करोतु अहं गृहे अस्मि सम्यक् वयं गृहे वयं गृहे स्मः सम्यक् अहं पाठं पठामि वयं पातं पठामः अहं लेखनं लिखामि <laughs> वयं लेखनं लेखनं लिखामः अहं लेखं लिखामि सम्यक् बहु सम्यक् भवति धन्यवादः धन्यवादः लेटेस्ट् दू सम् अभ्यास आफ़् उत्तमपुरुष एव अण्ड् डेन् विशल् प्रू भारतमहोदय वदति वा भारतमहोदयः अस्ति वक्तुमिच्छति इदानीं yeah, okay. त्रिविक्रमहोदय uh, uh, okay. त्रिविक्रमहोदय इदानीम् okay. अहम् अहं क्रियापदानि वदामि भवान् उत्तमपुरुषस्य yeah, एव रचनां करोतु Okay. Okay. Uh, पठामि um, um, इति उत्तम उत्तमपुरुष पठामि इति उत्तम उत्तमपुरुष hmm. उत्तमपुरुषस्य सर्वनामानि अहम् एव भवती एवं खलु एकवारं प्रयत्नं कुर्मः विफ्टर् सैम् ओके त्रिविक्रम त्रिविक्रम महोदय वदति वन् मिनिट् सो गच्छामि इति स्वीकरोतु वदतु गच्छामि गच्छन्तु न गच्छामि इति उत्तमपुरुषरूपमस्ति उत्तमपुरुष एकवचनान्तं तत् सम्पूर्णवाक्यस्य रचना प्रयत्नं करोतु गच्छामि सः किम् अस्ति अहमेव अहमेव प्रयुज्यते एवं खलु त्रिविक्रमहोदय गच्छा गच्छामि अहं गच्छामि गच्छामः गच्छामः किमस्ति गच्छामः वयं गच्छामः पर्पस् लट् शोङ्ग् दट् चार्ट् टु यू बिका ऐ वाण्ट् यू पीपल् टु मेक् ओन् वर्ब्स् एण्ड् आल् यु नो नाट् बै लुकिङ्ग् एट् द टेबल् सो त्रिविक्रमहोदय यु केन् आल्सो से अहं गृहं गच्छामि वयं गृहं गच्छामः सत्यं खलु त्रिविक्रमहोदय पुनः एकवारं वदति वा वदतु हा अहं गच्छामि hmm. वयं गच्छामः गच्छामः बहु सम्यक् इदानीं वदतु वदामि अहं वदामि वयं वदामः बहु सम्यक् गायामि पृच्छामि बहु सम्यक् धन्यवादः धन्यवादः महोदय अहवत् अनिता भगिनी द सेण्टेन्सेस् From you, I want karma padam padam api, api, adhikaranam api, yet kopi padam asti, यू ऐ वाण्ट् कर्मपदमपि अधिकरणमपि यत् कोऽपि पदमस्ति तस्य उपयोजनां करोतु फार् यू you will have? Anything. For you, karma padam, adhikaranam... अन्ययानि अपि कारकाणि यानि यानि सन्ति स्पेशलि फोर् यू पश्यति पश्यति अहम् अहम् अहम् या, मया पुस्तकं पश्यते ओ. भगिनि पश्यामि अहम् ओ अहं पश्ये मया पुस्तकं पश्ये अहं अहम् इ स्पीक्स् ओके न न कर्मणि न अहं पश्यामि ओके सो अहं किं पश्यामि अहं चलचित्रं पश्यामि सम्यक् अहं चलचित्रं पश्यामि इदानीम् अनेक बहुवचनान्तं करोतु वयं वयं नृत्यं पश् पश्यामः बहु सम्यक् इदानीं यच्छति इत्युक्ते oh, यच्छामि यच्छामि अहं uh -huh. uh -huh. धनं यच्छामि वयं uh -huh. वयं भोजनं यच्छामः बहु सम्यक् सम्यक् क्षिप क्षिपामि क्षिपामि अहं कन्दुकेन कन्दुकेन कन्दुकम् अहं कन्दुकं क्षिपामि वयं वयमपि कन्दुकं क्षिपामः वयम, वयम शिप, सम्यक् बहु सम्यक् इदानीं पचामि अहम् ओदनं पचामि वयं hmm? वयं uh, रोटिकां पच् पचामः पचामः पिबामि अहं जलं पिबामि वयं hmm. वयं चायं पिबामः जलं पिबामः देट्स् वाट् एण्ड् देन् वाय ऐ वस् सी कर्मपदं बिकोस् वी आर् इन्ट्रोड्यूसिङ्ग् देट् कर्मपदं न अहं oh. पिबामि एवमपि वाक्यमस्ति परन्तु What I told you, we have to वट् ऐ टोर् यू विव् टु नौ स्टार्ट् थिंकिङ्ग् एन् अड्वान्स् लेवल् Pibamaha, वयं जलं पिबामः पिबामः वयं स्वच्छजलम् एवं पिबामः लैक् देट् टु कीप् फ्रेमिङ्ग् डिफ़्रेण्ट् सेण्टेन्सेस् पचामि अहम् ओदनं घृते Pachami, Aham, Odanam, Sarvesham कृते Pachami. अहम् ओदनं स्वस्य कृते एव पचामि अहम् ओदनं रोटिकायाः रोटिकया सह पचामि लैक् देट् सो दिस् इस् द ऐडिया बिहाण्ड् इट् इस् वि शुड् बी वी मस्ट् बि इन् अ पोसिशन् टु फ्रेम् डिफ्रेण्ट् टैप्स् आफ़् सेण्टेन्सस् इन् संस्कृत् देट् इस् द पर्पज़् आफ़् स्पोकन् संस्कृत् इस् इट् नोट् ऐडिया okay, धन्यवादः so भगिनी इदानीम् अस्माकं hmm. राघवमहोदय राघवमहोदय वीणा भगिनी प्रथमतः राघवमहोदय राघवमहोदय इदानीं भवान् अहम् उपयुज्य एव क्रिया वाक्यरचना करोतु कृपया न क्रियापद क्रियापद अहं वदामि नमामि नमामि अहं देवं नमामि सम्यक् बहुवचनात् वयं देवान् नमामः सम्यक् क्रीडामि अहं क्रीडामि अहं क्रीडाङ्गणे क्रीडामि क्रीडा क्रीडा अहम कंदुक क्रीडा बहुवचने वो कंदुक सम्यक। सी अहम आसने स्यक बहुवचने आसने रक्षामि अहं बालकं रक्षामि mm. बहुवचनं वयं बालकान् रक्षामः रक्षामः बहुवचनं बहु सम्यक् महोदय धन्यवादः राघो धन्यवादः सो दिस् इस् आल् अबौट् उत्तमपुरुष नौ शाल् वी गो फोर् मध्यम पुरुषः इट् ओके ओके इदानीं okay. uh, uh, uh, प्रथमता तु वीणा uh, भगिनी पुनः एकवारं स्क्रीन् शेर् करोमि विणा भगिनी भवती पठतु कृपया पठति वा विणा भगिनी सा भगिनी मध्यमः पुरुषः त्वम् असि इति एकवचनं यूयं स्थ एकवचनं त्वं पठसि बहुवचनं यूयं पठथ एकवचनं त्वं लिखसि बहुवचनं यूयं लिखत नौ वीणा भगिनी जस्ट् इन्ट्रोड्यूस् एनी कर्मपदं त्वम् असि त्वं पठसि त्वं लिखसि युवर् चाय् त्वं सम्यक् असि ओ उत्तमम् अनन्तरं यूयं सम्यक् स्थ उत्तमम् त्वं पुस्तकं पठसि यूयं पुस्तकं पठथ त्वं पत्रं लिखसि यूयं पत्रं लिखथ बहु सम्यक् पठसि पठथ लिखसि लिखत नौ ट्रै टु रिकाल् उत्तमपुरुषे एकवचनान्त बहुवचनान्तं किमस्ति जस्ट् ट्रै टु रिकाल् द फार्मस् विना भगिनि अहं अहम् अस्मि अहं पठामि अहं लिखामि सम्यक् बहुवचने वयं स्मः वयं पठामः वयं लिखामः बहु सम्यक् ओके okay. सो तत्र किमस्ति पठामि पठामि पठामः अत्र अस्ति पठसि पठत पठत् भवती प्रथमपुरुषस्य विषये वदति वा किमस्ति तत्र प्रथमपुरुष एकवचन बहुवचन प्रथमपुरुष पठति पठति पठन्ति ओके नौ लेट् एस् ट्रै टु रीकोल् प्रथमपुरुष पठति पठन्ति मध्यमपुरुष पठसि पठथ उत्तमपुरुष पठामि पठामः ओके So, today everybody keep on recalling सो टुडे एव्रिबडी कीप् ओन् रिकालिङ्ग् दिश् प्रथमपुरुष मध्यमपुरुष उत्तमपुरुष प्रथमपुरुष पठति पठन्ति मध्यमपुरुष पठसि पठथ उत्तमपुरुष पठामि पठामः ओके सो दिस् इस् दि वर्क् विच् वी आर् वेङ्ग् टु टुडे Now, Aham, Vayam, Tvam, यूयं Sah, ते सः ते कृते अस्माकं समीपे हा ओके वन् मोर् पोयिण्ट् अहं वयं त्वं यूयं तत्र लिङ्गभेदाः सन्ति वा भगिनि न सन्ति सो त्रिषु लिङ्गेषु समान एव देर् इस् नो जेण्डर् डिस् बिकास् अहम् इट्स् फोर् पुल्लिङ्गपदं श्रीलिङ्गपदम् as as well as for So, Yushmat Asmad lingeshu, Samana. Kutra barkate, sah, लिङ्ग सो युष्मद् अस्मत् त्रिषु लिङ्गेषु समान भेदः कुत्र वर्तते सः ते साहास् ओन्ली फार् प्रथमपुरुष नोट् फोर् उत्तमपुरुष मध्यमपुरुष सो दिस् पायिण्ट् वी ह् टु रिमेम्बर् अस्तु धन्यवादः भगिनी धन्यवादः इदानीं राधा भगिनी राधा भगिनी सज्जा वा किं दृश्यते अत्र बालिकाः सो देर् आर् टु गर्ल्स् ऐडिया बिहैण्ड् देट् इस् दे विल् बि say something to each other and then naturally they will see saying tvam yeah madhyama purusha but irrespective of the gender that tvam mm -hmm. will remain the same mm -hmm. and the sametam the verb form attached to that tvam patasi likhasi namasi gacchasi gayasi rakshasi and all that will remain the same whether a god is telling to another girl or a boy is addressing another boy or girl conversation between one girl and one boy okay so this is the idea behind showing these pictures to you in the bhagini bhavate kim karatu radha bhagini vahyaani rachayantu and then atra Imagine, one girl is telling to another girl, or two boys, or one girl, one boy. And then, whatever verb you want to use, you can use. Or if you want to use karma padam, you can use whatever, in whichever way. But the sarvanama padam will be tvam. Okay? Okay. Okay. Uh, sarvanama padam mm will be tvam. -hmm. Tvam... Uh... त्वं गच्छसि खादसि वा त्वं खादसि सम्यक् बहु सम्यक् यु आर् सेङ्ग् वेरि नैस्लि हाव् कान्फिडेन्स् वदतु Creed a, creed a si. Now, just try to go little bit advance and then say त्वं Now, just imagine. Now, the uh, one girl is telling to another one. त्वं नौ asi mm -hmm. The one girl is appreciating the other girl. त्वं चतुरा asi नो mm -hmm. the same thing If one boy boy, boy boy, wants to tell to to tell the the the other boy, frame sentence. Chaturah Chaturah Chaturah. Asi. Chaturah Asi. Chaturah. Right? Okay. Okay. So okay. Chaturah Asi Asi. Uh, Asi. Okay. Okay. So So that is is difference. because in And will will address another he say Sundara I am okay. uh, sorry. बेन्तुं Sundari Asi. त्वम् अनदर् एक्साम्पल् अस्तु त्वम् ज्वलं पिबसि त्वम् भोजनं करोषि लैक् देट् आल्सो यु के त्वं खादसिङ्ग् वर्ड् त्वं त्वं गृहं गच्छसि सम्यक् ंगण क्रीडसी बहु सी वाला क्रीडांगण क्रीडांगण स्थान दर्शयंगण क्रीडांगणे ठीडसीटाला पाठशाला ग्छसी पाठशाला ग पाठशाला ग पाठशालां गच्छसि सम्यक् त्वं चलचित्रं पश्यसि बहु सम्यक् त्वं चलचित्रं पश्यसि कुत्र गच्छसि त्वं कुत्र गच्छसि प्रश्नार्थं बहु सम्यक् भगिनी वेरि वेल्डन् वेरि वेल्डन् धन्यवादाः धन्यवादः इदानीं रमणीभगिनी भवत्याः अवसरः रमणी भगिनी वा आम भगिनी सो किं दृश्यते अत्र एकः बालकः चत्वारि बालिकाः त्रयः वक्तुं शक्नुमः Bala, okay, there are four I have shown over here. मध्यमपुरुष परंतु तत्र बहुवचने अस्ति एवं खलु बालकः इस् अड्रेसिङ्ग् दोस् फोर् चिल्ड्रन् सो he will be saying youm madhyama purushe ekvachana antam astitvam ah. so if the boy is pointing to us ah. all four children he will be saying youm correct youm okay so now which verb form goes with youm for example am tvam pathasi iti vadami tat youm will be uh -huh. पाठ पाठ यूयथ इदानीं वाक्यरचना करोतु यूयं uh, विद्यालये पाठ वा यूयम् इति पाठं पठत यूयं पाठं पठतः अनन्तरं यूयं विद्यालयं गच्छ विद्यालयं गच्छत् सम्यक् गच्छत् अनन्तरं यूयं यूयं चलचित्रं पश्यथ बहु सम्यक् भगिनि चलचित्रं पश्यथ अनन्तरं यूयं पानीयं पिबथ पिबथ सम्यक् अनन्तरं यूयं सङ्गीतं शृणुथ शृणुथ इदानीं शृणुथविषये अनन्तरम् अग्रिमे वर्गे तत् रेगुलर्ली गच्छति भवती okay. सङ्गीतं गायथ इति वक्तुं शक्नोति गायथ गायत् गायत, एव ओके okay? सो so, दीस् आर् द सेन् टैन्स् okay, रैट् धन्यवादः धन्यवाद धन्यवादः भगिनी बहु उत्तमप्रकारेण उक्तमस्ति now what we will do uh, it is 620 we have storytelling also that we will do before that ek varam ha raghav <laughs> modaya uh, raghav uh, modaya आं भगिनि भवान् कृपया तत् खादति इति खाद इति धातु स्वीकृत्य अहम् वयं त्वं यूयं सः ते रूपाणि वदति खाद कृते अहम् आम्रफलं खादामि वयम् आम्रफलानि खादामः सम्यक् सः आम्रफलं खादति ते आम्रफलानि खादन्ति सम्यक् मध्यमपूज्य त्वम् आम्रफलं खादसि सम्यक् पूर्वम् आम्रफलं खादत बहु सम्यक् बहु धन्यवादः पुनः एकवारं श्यामलाभगिनी अपि अस्ति अहं न दृष्टवती एवं क्षम्यतां श्याम्य भगिनी भवती वक्तुं शक्नोति वा नमस्ते हा भवती वदति वा हसति हसति उत्तमपुरुष मध्यमपुरुष प्रथमपुरुष स्टार्टिङ्ग् फस्तु प्रथमपुरुष रामः हसति बहुवचनान्त रामाः हस हसति हसन्ति हसन्ति मध्यमपुरुषपुरुष रामौ त्वं हसन् त्वम् इति अस्ति खलु मध्यमपुरुष त्वं अस्तु त्वं त्वं त्वं रामः हसति तत्र रामः न त्वम् इति यु आर् एड्रेसिङ्ग् टु सम्वान् त्वं हससि इति यु आर् हसी युयं हसथ इति भवति हसति द्वयं हसतः सम्यक् उत्तमपुरुषे किं भवति उत्तमपुरुषे त्वाम् अहम् अहम् हसामि हसामि अहम् हसामि वयं हसामि यूयं हसामि न वयम् इति उत्तमपुरुष बहुवचने यूयम् क्षम्यतां वयं वयं पश्यामः एकवारं पुनः एकवारं पठनं करोतु तेन दृढीकरणं भवेत् मनसि एक किञ्चित् पुनः एकवारं पठनं करोतु अग्रिमे वर्गे यदा सन्देहः वर्तते कृपया पृच्छतु मां अस्तु भगिनि एकवारं जयन्ति भगिनी पृच्छ पृच्छ जयन्ति भगिनी पृच्छामि पृच्छामि इति स्वीकृत्य एकवारं सर्वाणि रूपाणि वदति वा अस्तु दीप ऐ मीन् अहं पाठं पठामि अहं सारी वाट् पृच्छति किल अहं प्रश्नं पृच्छामि अहं प्रश्नं पृच्छामि वयं पृश् hmm. प्रश्नं पृच्छामः त्वं प्रश्नं पृच्छत hmm. सारी पृच्छति पृच्छति यूयं प्रश्नं पृच्छत सः प्रश्नं पृच्छ पृच्छति ते प्रश्न प्रश्नं पृच्छता पृच्छन्ति पृच्छ पृच्छन्ति पृच्छन्ति so uh, we will do the uh, practice sufficient practice huh? uh, katambavati uh, aham ubhyam um. tvam young sah te hmm. okay so vadami vadavah uh, vadamah vadasi vadath vadati vadanti like that okay let us Amin. do the practice next time also we will continue hmm. the same don't worry okay ah. so idani ah. ah. uh, kathaya -ha, samaya asmakam storytelling satthu bhaveteva सर्वे शृण्वन्तु अद्यदिने अहं गणेशस्य कथां श्रावयामि गणेशः अस्माकं प्रथमपूजनीयदेवता एव अस्ति खलु गणेशस्य अनेकानि नामानि सन्ति अनेकानि नामानि जस्ट् गिव् मी सम् एक्साम्पल्स् गणेशस्य नामानि कानि गजाननः अनन्तरं बहु सम्यक् लम्बोदरः अनन्तरं मूषिकवाहन सम्यक् अनन्तरं पुनः एकवारं वदतु विघ्नेश्वरः बालचन्द्रः सम्यक् इतोपि विघ्नहर्ता विघ्नहर्ता इतोपि वक्रतुण्डः वक्रतुण्डः ओकेट् इस् स्पेसिफायिङ्ग् हिस् बाडि इतोपि Gajanana. Gajanana. Gajanana. Yes, one more, one more particular name which signifies its uh, uh, I mean the body structure. तत्र पर्टिक्युलर् नेम् विच् सिग्निफैस् इट्स् दाडि स्ट्रक्चर् गणेशस्य बाडि स्ट्रक्चर्निफिस् गणपति Lambodara. उदरपति I will give you इतोपि hint, uh, referring to his uh, tooth. एकदन्तम् एकदन्त सम्यक् इदानीम् एकदन्तः विषये गणेशः कथम् एकदन्तः इति नाम प्राप्तवान तस्य विषयस्य एषा कथा न बिफोर् वि गो फार् द स्टोरि ऐ जस्ट् वाण्ट् टु टेल् यू दिस् नाम नाम बेसिकलि दिस् नाम वर्ड् इट् इस् ए न्यूटर् जेण्डर् सो डोण्ट् से नामः अत्र नाम नामानि एकं नाम अनेकानि नामानि सो बीङ्ग् न्यूटर् जेण्डर् प्रथमा द्वितीया विभक्तिरूपाणि विल् रिमेन् द सेम् नाम नामानि नाम नामानि जस्टेस् वि हेव् वनं वनानि वनं वनानि वनं वनानि प्रथमा वनम वनानि द्वितीया तथैव नाम नामानी प्रथमा नाम नामानि द्वितीया ओके okay? सो so डोण्ट् से नामः इट् इस् आल्वेस् नाम डेट् आल् नो विसर्वा सो गणेशः कथम् एकदन्त इति नाम, no so एक नाम प्राप्तवान् तस्य विषयस्य ईशा कथा मुनिपरशुराम सर्वे जानन्ति वा मुनिपरशुरामः कः विष्णोः अवतार इति विष्णोः अवतार परशुरामस्य इष्टदेवता भगवान् शिवः अस्ति एकदा मुनिपरशुरामः कैलासपर्वतं गतवान् न हि हेस् गोन् टु कैलास् पर्वतं शिवस्य दर्शनार्थं शिवः इति भगवान् परशुरामस्य इष्टुदेवता तस्य दर्शनार्थं परशुरामः मुनिपरशुरामः कैलासपर्वतं गतवान् सो so, द टैम् तस्मिन् एव समये यदा सः कैलासपर्वतं गतवान् तस्मिन् एव समये शिवः माता पार्वत्या सह गुहायां वार्तालापं करोति स्म वार्तालापं प्रचलति आसीत् प्रचलत् आसीत् तस्मिन् समये शिवपार्वत्याः वार्तालापं गहना चर्चा वार्तालापं तत्र प्रचलति इदानीं पार्वतीं शिवः रामायणस्य कथां कथयति स्म रामायणस्य कथाम् प्रचलति तस्मिन् समये तस्मिन् समये शिवः गणेशम् आज्ञां दत्तवान् हे गणेशः कोऽपि जनः गुहाम् प्रवेष्टुं न शक्नोति don't allow anybody to enter guha i will discussing something with mata parvati i don't want anybody to be here bhawan kim karu tu mama trishulam gruhitva pravesh dware sajjah bhavatu be ready with my trishul don't allow anybody to enter even if you fight for that i don't mind but i don't want anybody to enter गणेशः पितुः वचनम् अङ्गीकरोति स्म अङ्गीकरोति इत्युक्ते हि हेस् एक्सेप्टेड् हि हेस् अण्डर्स्टूड् इन् अ वेरि प्रापर् वे परशुरामः कैलासपर्वतं गतवान् अत्र तत्र सर्वत्र अन्वेषणं सः करोति स्म परन्तु शिवं मेलितुं न शक्नोति ओके हि सर्चिङ्ग् फोर् शिव भगवान् कैलास् पर्वत् बट् हि कुडन्ट् मीट् शिव शिवं मेलु मेलितुं सः व्याकुलः भूत्वा गुहायाः पुरतः आगच्छति स्म सः आगतवान् कुत्र गुहायाः पुरतः गुहायां किं प्रचलति तत्र शिवपार्वत्याः वार्तालापं प्रचलति गुहायाः पुरतः भगवान् परशुराम आगच्छति स्म सः चिन्तयति ईश्वरः अवश्य गुहायाम् मम आराध्यदेवता शिवः अवश्यं गुहायामेव अस्ति तत्र गणेशः अस्ति सः गणेशं पृच्छति हे बालक गुहायां भगवान् शिवः अस्ति खलु गुहायां भगवान् शिवः अस्ति वा भगवान् शिवः अस्ति खलु गणेशः वदति अस्ति परन्तु भवान् प्रवेशं मा करोतु कृपया भवान् कृपया प्रवेशं मा करोतु अत्र करोतु इति कस्मिन् लकारे अस्ति लोट् लोत लकारे तस्य अध्ययनम् सम्यक् तस्य अध्ययनं वयम् अनन्तरं कुर्मः लट्लकार वर्तमानकाल् लोट् लकार आज्ञार्थं प्रवेशं मा करोतु कृपया विनन्ती करोति आज्ञां करोति रिक्वेस्ट् इति वदामः चेत् गणेशः पुनः पुनः प्रार्थनां करोति प्रवेशं मा करोतु कृपया प्रवेशं मा करोतु कृपया परन्तु मुनिपरशुरामः न अवगच्छति एव न अवगतवान् नाट् रेडि टु अण्डर्स्टेण्ड् वट् द मेटर् इस् ही जस्ट् वाटर् देट्स् आल् ही जस्ट् हेव् दर्शनम् आफ् शिव न अवगच्छति स्म न अवगतवान् अन्तिमे शूल से परशुराम से सज्ज पिता आज्ञा अस्सी खलु गणेश शिव से आज्ञा अस्त पिता आज्ञा अस्ट मगरोधि त्रिशूल्स प्रयोगण मार्गस्य अवरोधनं करोमि इति विचिन्त्य गणेशः मार्गम् अवरोधितुम् सज्जः हि वार्ड् परशुराम् तेन परशुरमः परशुरामः कुपितः अहं पराक्रमीवीरः परशुरामः तु अतीव पराक्रमी आसीत् खलु परशुराम से पराक्रम सभी जाना अहम पराक्रमीर एक लघुबालक सब मगम अवरोधती कशुराम गेटिंग वेरी फ्यूरयस एंड आंग्री अहम पराक्रमीर अहंकारी अहम पराक्रमीवीर एक लघुबालकेश मगमधती परशुराम व हे दुष्टबालक दुराग्रहं त्यजतु अगेन् त्यजतु इति कस्मिन् लकारे लोट् लकार लोट् लकारे त्यजतु दुराग्रहम् इत्युक्ते नावगच्छति वेणी इत्युक्ते जिद् वा ह हटराग्रहके दुराग्रहं तत् यु आर् वेरि स्टाङ्ग् शार्ट् आफ् थिङ्ग् ओके त्यजतु शिवस्य दर्शनार्थं प्रवेष्टुम् इच्छामि अहम् इच्छामि अहम् अस्मि उत्तमपुरुष अहं शिवस्य दर्शनार्थं प्रवेष्टुम् इच्छामि उत्तिष्ठतु अगेन् लोट्लकारे उत्तिष्ठतु गेटप् लिव् मै वे नो चेत् नो चेत् वट् इस् दिस् नो चेत् कः भावः वर्तते अत्र अन्यथा ओके सो दिस् इस् एङ्ग्री इङ्ग्री टोन् वित् आल् दिस् इगो एण्ड् अहङ्कार नो चेत् अहम कि अहम युद्ध कौमी अहम उत्तमुर अहम युद्ध कौमी अहम प्रवेश मगम त्यज नोचे अन्यथा था अहम युद्ध कौमी गणेश भा कि भविष्य इन् अ वेरी पोलैट् वे गणेशः गणेशः तु विद्यायाः स्वामी अस्ति सः जानाति कथं वक्तव्यं भवेत् इति सः वदति भवान् किमपि भविष्यति परशुरामः वदति खलु अहं पराक्रमी अहं परा वीरः एण्ड् आल् सो गणेशः स्पीकिङ्ग् इन् अ वेरी पोलैट् वे भवान् किमपि भविष्यति अहं सम्मतिं न ददामि अहं न ददामि सम्मतिं सम्मति इत्युक्ते पर्मिशन् एण्ड् नोट् अलाविङ्ग् यु भवान् किमपि भविष्यति ओके अहं भवामि वयं भवामः त्वं भवसि एण्ड् वट् एवर् मे बी द थिङ्ग् ऐ विल् नोट् अलाव् यु टु एण्टर् देन् वोट् हेपन् परशुरामः गणेशेन सह युद्धस्य प्रारम्भम् कृतवान् हि स्टार्टेड् ऐ मीन् हि लास् बिकास् आफ् द एङ्गर् हि डिण्ट् रियलैज् द सिचुवेशन् तत्र लघुबालकः तस्य पुरतः आसीत् परन्तु सः युद्धस्य प्रारम्भम् कृतवान् एव्रिबडि नोस् परशुराम अतीव पराक्रमीति सः वीरः ुद युद अंति परशुराम गणेश दिव्यास्त्र क्षित क्षिपति क्षेपेपी तस्य दिव्या अस्त्र क्षेप अंतिम परशुरामः गणेशस्य उपरि दिव्याश्रं क्षिप्तवान् तेन किम् अभवत् गणेशस्य एकः दन्तः खण्डः जातः खण्डः जातः इत्युक्ते किम् टोटली वन् टीथ् I mean, one tooth completely broken, completely came out, एकः दन्तः खण्डः जातः तत्र कम्प्लीट्लि इत्युक्ते तत्र पार्शयली ब्रेकिङ्ग् इति कम्प्लीट्लि इत्युक्ते दिव्यास्त्रस्य प्रयोगेन पार्शियल् ब्रेकिङ्ग् खण्डः एकः दन्त खण्ड खण्ड इत्युक्ते पार्ट् एवं खण्ड ब्रोक् खण्डितः खंडः जातः अनेकानि नामानि मध्ये तस्य एकनाम एकनाम एकदन्तः इति अभवत् अनन्तरं तत्र भिन्ना कथा वर्तते अनन्तरं शिवः तत्र आगतवान् सः परशुराम परशुरामं शापं दत्तवान् अण्ड् आल् बट् एकदन्तः इति नाम भवति दंत, परशुरा दन्तस्य खण्डं hmm. कृतवान् अतः इति अस्ति कथा एकदन्तस्य कथा अवगतम् okay. awesome. yeah, nice. yeah. yeah, yeah. okay. uh, श्वः uh, श्वः पुष्टिपतिजयन्ती इति अस्ति mm. पुष्टिपति इत्युक्ते गणेशस्य एव आ, एकं नाम अस्ति पुष्टिपति पुष्टि इति एका आ, देवता देवी इति वक्तुं शक्नुमः तस्य तस्याः पति इति पुष्टिपति गणेशस्य अनेकानि नामानि विनायक् अपि अस्ति पुष्टिपति अपि अस्ति भालचन्द्र इ इति अस्ति सो दे आर् डिफ्रेण्ट् स्टोरीस् फार् डिफ्रेण्ट् नेम्स् सो श्वः पुष्टिपतिजयन्ती इति पुष्टिपति इति अवतार से दीस् आर् आल् सिम्बाल्स् एण्ड् दीस् आर् अवतार इन्कारशन् आफ् लार्ड् गणेशः ओके अण्ड् what is the concept behind बिहैण्ड् आल् यदा यदा हि धर्मस्य ग्लानिर्भवति भारत तत्र अवताररूपेण ईश्वरस्य आगमनं भवति ओके सो दिस् इस् एकदन्त इति अनेकानि नामानि सन्ति मध्ये एक अनेकानि नामानि मध्ये एकः नाम एकदन्तः इति अस्तु कोपि प्रष्टव्यमस्ति वा सम्यक् एनि एनि क्वशन् सन्देहः वा शङ्का वर्तते वा अस्ति चेत् पृच्छन्तु नास्ति चेत् वयं शान्तिमन्त्रेण समापयामः अस्तु अस्तु कोऽपि वदति वा शान्तिमन्त्रम् श्रीवत्समहोदय वदति वा त्स महोदय ओके अन्यकोपि एनिबडि रामः वदतु वदतु वदतु सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखबाग् भवेत् ॐ शान्ति शान्ति शान्तिः हरिः ओम श्रीकृष्णार्पणमस्तु शुभवर्पणमस्तु धन्यवादाः सर्वेषां धन्यवादाः पुनर्मिलामः धन्यवादः